त्वं शुभे शिवकरे सुखदुःखहस्ते आघुणितं भवजलं प्रबलोर्विभङ्गै शान्तिं विधातुमिह किम् बहुधा विभग् धातु मेह किं बहुधा विभग्नां मातप्रय न परमासि सदैव वेष मातप्रय सम्पालयन्त्य विरतं त्वविरामवृतां या वैस्थिता कृतफलं त्वकृतशरेत्रीं सा मे भवत्यनुदिनं वरदा भवारे मे भवत्वनुदिनं वरदा भवाणि जानाम्यहं ध्रुवमियं धृतर्मपासा जानाम्यहं ध्रुवमियं धृतकर्मपासा किं वा कृतं किं कृतं क्वकपाररेख किं कर्म वा फलमिहा स्थियामिना भो हेच्छा गुणैर्नियमिता नियमा sabudainya amita niyamasatantrai yashasada bhavatu saranam mama dya yasasada भवतु सा शरणं ममाया सन्तानयन्ति जलधिं जनिमृत्युजारं सम्भावय च विकृतं विकृतं विभग्नम् यशा विभूतय एषा मितशक्तिपाला ना श्रितां वदकुत शरणं व्रजाम ना श्रियतां वदकुतशरणं व्रजाम ऋत्रे रिपौत विषमम् तव पद्मनेत्रं स्वस्ते सुखे स्ववितस्तव हस्तपात् छायामृतिस्त्वदयात् स्वमृतं च मात छायामृतिस्त्वदयात् मृतं च मातन्तु मां न परमे शुभोचन्तु मां न परमे शुभतिष्ठयस्ति क्वां वा शिवा क्व वृणनं मम हीनबुद्धे दुर्भ्यां विधर्तुमिव यानि जगद्विधात्रे चिन्त्याश्रियं सुचरणं स्वभयाप्रतिष्ठं चिन्त्यं श्रियासुचरणं स्वभयाप्रतिष्ठं सेवा परे अभिनुतं शरणं प्रपदे सेवापरै अभिनुतं शरणं प्रपदे या माचिराय विनय त्यतिदुःखमार्गैन् आसिद्धित स्वकलितै ललितैविलासे या यामे मतिं सुविदधे शततं धरण्यां यामे मे मतिं सुविदधे शततं धरण्यां सा मा सफले फलेवा श्या शिवा नमगते सफले फलेवा श्या शिवा नमगते सफले फले वा